श्रीमद्भागवतमहापुराणं चतुर्षस्कन्धः त्रयोदशोऽध्यायः मैत्री उवाच अङ्गो द्विजुवच श्रुत्वा यजमानसुदुर्मनाः तत्प्रष्टुं व्यसृजद्वाचं सदस्यां तदनुज्ञयां नागच्छन्त्याहुता देवा न गृह्णन्ति गृहादिह सदं सरस्पतयोऽब्रूत किं वद्यं मया कृतं सदसस्पतयुचुः नर्देवेह भवतो नाघं तावान्मान्मनाकस्थितम् अस्त्येकं प्राक्तनमघं यदीहे दृगतमप्रजः तथा साधय भद्रं ते आत्मानं शोप्रजं इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभो तथा स्वभागधेयानि ग्रहीष्यन्ते दिवौकशः यद्यज्ञपुरुषसाक्षादपत्याय हरिर्वितः तान् सान् कामान् हरिर्द्याद्यानि यान् कामयते जनः आराधितो तथैवै स यथा पुंसां फलोदयः इति व्यवसिता विप्रा सस्य राज्ञ प्रजाते पुरोल्लासं निर्वपसन्पन्सि विवेष्टाय विष्णवे तस्मात्पुरुसूत्रस्थौ हेव माल्यम् अलाम्बरः हिरण्ण पात्रेण सिद्धमादाय पायसम् स विप्रानुमतो राजा गृहीत्वाञ्जलिनोदनम् अवघ्राय मुलायुक्तप्रादापत्न्या उदारधी तातत्पुंसवनं राज्ञी प्राशभे प्रत्युरादधे गर्भं काल उपावृत्ते कुमारं शिशुवे प्रजा सबाल एव पुरुषो मातामहमनुव्रतः अर्थमांसोद्भवं मृत्युं ते नाम ससरासनमुद्यम्य मृगुर्वनगोचरः हन्त्यसाधुर्मृगान् दीनान् वेणुसावेत्यरोञ्जनः आक्रीडे क्रीडतो बालान्वस्यानति दारुणः प्रसय्य निरनुक्रोश पशुमारममारयत् पुतं विचक्ष खलं पुत्रं शासनैर्विविधैपः यदा न शासितं कल्पोऽभ्यसमासे सुदुर्मनाः प्रायेणाभ्यर्चितो देवो ये प्रजागृहिमेधिनः कल्पत्यभृतं दुःखं येन विन्दन्ति दुर्भरं यत पापीयसे अधर्मस्य महानिनां यतो विरोधः यत आधीरनन्तकः कस्तं प्रजापदे संवै मोहबन्धनमात्मनः पण्डितो बहुमन्येत यदर्था क्लेशदागृहाहं कदपत्यं वरं मन्ये सदपत्या शुचां पदात् निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहागृहाहम् एवं स निर्विन्नमनानिपो गृहान्निशीथ महोदयोदयात् अलब्धनिद्रोऽनुपलक्षितो निभेषित्वागतो वेन सुवं प्रसुप्तां विज्ञाय निर्विद्यगतं पतिं प्रजा पुरोहितां नाद्य सुहृद्गणादयः विचित्योरुर्व्यामतिशोककातरा यथा निगूढं पुरुषं कु योगिनः अलक्ष्यन्त पदवीं प्रजापतेर्हतोद्यमा प्रत्युपसृद्यते शिन्समेता न विं वन्द्यसास्रवो न वेदयन्पौरवं भरति विप्लवं ते श्रीमद्भागवते महापुराणे प्रंशां चैतायां चतुर्दस्कन्धे त्रयोदशोऽध्यायः